हरि श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे हृद्याखण्डे पञ्चवीक्ष सर्गः कौसल्य श्रीरामस्य वनमात्रयात्रायै मङ्गलकामना पुरस्सरम् स्वस्ति वाचन करणम् तां प्रणम्य श्रीरामस्य सीताया भवनं प्रति गमनम् सा विनीय तमासायम् जलं शुचिः चकार माता रामस्य मङ्गलानि मनस्विनि न शक्यते वारयितुं गच्छेदानीं ऋघुत्तम शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे यं पालयसि धर्मं तं प्रीत्या च नियमेन च स वै राघव च दूरे दू, यभ्य प्रणमसे पुत्र देवेष्वायतनेषु च ते च त्वामभिरक्षन्तु वने सह महर्षिभिः यानि दत्तानि ते अस्त्राणि विश्वामित्रेण धीमत तानि त्वाम् अभिरक्षन्तु गुणे स मोदितन्त्राय पितृशुश्रूषय पुत्र मातृ शुश्रूषय तथा सत्येन च चरं जीवाभिरक्षितः समित्कोषः पवित्राणि वेद्य चायतनानि च खण्डिलानि च विप्राणां शैला वृक्षा क्षुपा हृद पतङ्गपन्न सिंह संरक्षन्तु नरोत्तमः स्वस्ति साध्या च विश्वे च मरुतः च पूषा भगोर्यमा लोकपालः च ते सर्वे वासवप्रमुखास्तथातवैष्य ते सर्वे मासा संवत्सराक्षपाः दिनानि च मुहूर्ता च स्वस्तीकुर्वन्तु ते सदा स्मृतिस्मृति च धर्मश्च पातु त्वां पुत्र सर्वतः स्कन्दश्च भगवान् भगवान् देव सोमश्च स बृहस्पतिः सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वरः स्तुतामया पातु त्वां पुत्रय नित्यश्च शैला सर्वे समुद्रा च राजा वरुणेव च पृथ्वी वायुश्च सहचराचरः नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतै अहोरात्रे तथा सन्ध्ये पातु त्वाम्बनमाश्रितम् कृतवैश्चापि षट्चे मासा संवत्सरा कलाश्च काष्ठा च तथा तव शर्म दिशन्तु ते चरतु मुनिवेशस्य धीमतः तथा देवा च दैत्या भवतु सुफदासदा राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणां क्रव्यादानां च सर्वेषां मा भूत्पुत्रकते भयं प्लवकः वृश्चिका दंशा मशका चैव क नरे सरिसृपा च केचाच मा भूवन्धने तव ीपाः च सिंहाश्च व्याघ्रा वृक्षा च धृणः महिषा शृङ्गिणो रौद्र न ते द्रोह्यन्तु पुत्रमांसभोजना रौद्रा ये चान्य पुत्र मया सम्पूजितास्ति हगमास् शिवासन्तु सिद्ध्यन्तु च पराक्रमः सर्वसंपत्तयो राम स्वस्ति मां गच्छ पुत्र स्वस्ति ते शान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः शुक्र सोमः च सूर्य च धनरुमस्तथा पातु अग्निर्वायुः तथा धूमो मन्त्रा च श्रीमुखच उपस्पर्श न पान्तु त्वां रघुनन्दन सर्वलोक प्रभुर्ब्रह्म भूतकर्तृ तथ चे च सुरासेतु रक्षन्तु अनवासिनम् इति माल्ये सृगणां गन्धैश्चापि येशस्विनी स्तुतिभिः च अनुरूपाभिः आदश्चयतलोचन जलनं समुपादाय ब्राह्मणेन महत् न हावयामास विधिनः राम मङ्गलकारणा भुटं श्वेतानि माल्यानि समिधाय चैव स च पम्पादयामास कौसल्य परमाङ्गना उपाध्याय विधिना हुत्वा शान्तिमनामयम् उतो व्यावशेषेण बाह्यम् बलिम् अकल्पयत् मधुदध्य क्षतभृतै स्वस्ति वाच्यं बिजान्तथ वाचयामास रामस्य वनेश्वस्य यशस्विनी दक्षिणां प्रददोकाम्याम् राघवं चेदमब्रवीत् यन्मङ्गलं स्राक्षे सर्वदेव नमस्कृते वृत्रनाशे समभवत् तत्ते भवत मङ्गलम् यन्मङ्गलं सुपर्णस्य विनताय कल्पयेत् पुरा अमृतम् प्रार्थयानस्य तत्ते अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य च अदिति मङ्गलम् प्रादात् तत् ते भवत मङ्गलम् त्रिविक्रमान् प्रक्रमतो विष्णो वसुलतेजस यदासीन् मङ्गलम् राम तत्ते भवत मङ्गलम् ऋष्य सागरद्वीप वेदालोकाधिश मङ्गलानि महाबाहु दिशन्तु शुभमङ्गलम् इति पुत्र शेषा च कृत्वा शिरसि भामिनी गन्धैश्चापि समालभ्य रामम् आयतलोचन औषधिं च सुसिद्धार्थं विचल्य कर्णीं शुभम् चकार रक्षां कौसल्या मंत्रै अभिजजा वाचापि प्रवृतेव वे स दुःख वशवर्तिनी वाङ्मात्रेण भावेन वाचा संसज्यमानय आनम्य मुर्निचाघ्राय परिष्वज्य यशस्विनी अवदत् पुत्रमिष्टाथु गच्छ राम यथा सुखम् अरोगम् सर्वसिद्धार्थम् अयोध्याम् पुनरागतम् पश्यामि त्वां सुखं वत्स सन्धितं राजवत्मसु प्रणश्च दुःख सङ्कल्प हस्य विद्योतिधान द्रक्ष्यामि त्वां मनः प्राप्तम् पूर्णचन्द्रोदितं भद्रासनागतं च पुनस्तां तु तीर्णवन्तं मङ्गलै उपसंपन्नो वनवासाधिहतम् वध्या च मम नित्यं त्वं कामां संवर्धयाहि भो मया सितः देवगणा शिवादयो महर्षयो भूतगणा सुरुरग। अभिप्रया तस्य वनं च रयते पितानि काङ्क्षन्तु विश्च अतीव चाश्रुपतिपूर्णलोचन समाप्य च स्वत्यनम् यथाविधि फलक्षिणम् चापि चकारराघवम् चा पुनः पुनश्चापि निरीक्ष्य स्वजे तया हि देव्या च कृत फलक्षिणो निपीड्यमातुः शरणौ पुन पुनः जगामसीता निलयम् मायश स्वराघव प्रज्वलितस्त श्रिया इत्याशी श्रीमद् रामय वाल्मीकि